न दाशार्ही सुधर्मा वा ब्रह्मणो वाथ तादृशी सभारूपेण सम्पन्नायां चक्रे मतिमान्मयः तां स्व रक्षन्ति च वहन्ति च सभामष्टौ सहस्राणि किङ्करा नाम राक्षसाः अन्तरिक्षचरा घोरा महाकाया महाबलाः रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः तस्यां सभायां नलिनीं चकारा पद्मसौगन्धिकवतीं नानाधृजगणायुतां पुष्पितैः पङ्कजैश्चित्रां कूर्मैर्मत्स्यैश्च काञ्चनैः चित्रस्फटिकसोपानां निष्पङ्कसलिलांशुभाम् मन्दानिलसमुद्धूतां मुक्ताबिन्दुभिराचितां महामणिशिलापट्टबद्धपर्यन्तवेदिकाम् मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः पृष्ट्वापि नाभ्यजानन्त ते ज्ञानात् प्रपतन्त्युता नित्यं पुष्पवन्तो महाद्रुमाः आसन्नाविधा लोलाः शीतच्छायामनोरमाः काननानि सर्वशः हंसकारण्डगोपेताश्चक्रवाकोपशोभिताः जलजानां च पद्मानां स्थलजानां च सर्वशः मारुतो गन्धमादाय पाण्डवां स्म निषेवते ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः निष्ठितां धर्मत् इति श्रीमहाभारते सभापर्वणि सभाक्रियापर्वणि सभानिर्माणे तृतीयोऽध्यायः